सतम् तपोरतम् मन्दम् सनैः क्षपयते तुदन् जरत्कारुम् तपो लब्धम् मन्दात्मानमचेतसम् न हि सत्तमा छिन्नमूलान् परिभ्रष्टान् कालोपहतचेतसः अधः प्रविष्टान् पस्यास्मान् यथा दुष्कृतिनस्तथा अस्मासु पतितेष्वत्र सह सर्वैः सबान्धवैः छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकम् ततः तपोवाप्यथवा यज्ञो यच्चान् यत्पावनम् महत् तत्सर्वमपरन्तात सतात दृष्ट्वा ब्रूयांस्तम् जरत्कारुम् तपोधना यथा दृष्टमिदम् चात्र त्वया ख्येयमशेषतः यथा दारान् प्रकुर्यात्स पुत्रानुत्पादयेत्यथा तथा ब्रह्मम् स्वयावाच्यः सोऽस्माकम् नाधवत्तया बान्धवानाम् हितस्येह यथा चात्मकुलम् तथा कस्त्वम् बन्धुमिवास्माकमनुसोचसि सत्तमा श्रोतुमिच्छाम सर्वेषाम् को भवा इति श्रीमहाभारते आदिपर्वणि आस्तिकपर्वणि जरत्कारुपितृदर्शने पञ्चचत्वारिंशोऽध्यायः